दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामहः अपि चैद्यस्य पतनाच्छन्नमोत्पातिकम् महत् वैशम्पायन राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः कृष्णद्वैपायनो व्यास इदम् वचनमब्रवीत् त्रयोदश समाराजन् उत्पातानां फलं महत् सर्वक्षत्रविनाशाय भविष्यति विशाम्पते त्वामेकं कारणं कृत्वा कालेन भरतर्षभ समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत दुर्योधनापराधेन भीमार्जुनबलेन च स्वप्ने द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वम् वृषध्वजम् नीलकण्ठम् भवम् स्थाणुम् कपालिम् त्रिपुरान्तकम् उग्रम् रुद्रम् पशुपतिम् महादेवमुमापतिम् हरम् शर्वम् वृषम् शूलम् पिनाकिम् कृत्तिवासम् कैलासकूटप्रतिमम् वृषभेव शिवम् निरीक्षमाणम् सततम् पितृराजाश्रिताम् दिशम्